गणेशपुराणं क्रीडाखण्डम् अध्यायम् एट्टित्रि क उवाच शुक्लचन्द्र इव ब्रह्मन्ववृधे स दिने दिने ततोहिमालयप्रायाच्छ्रुत्वा गौरीसुतं शुभं अलङ्कारान् समादाय मूल्यरत्नसमन्वितान् अजिरेतं निरीक्ष्यैव धावयित्वा ययौ सुता आलिलिङ्गमुदा गौरो बहुकालागतं चतम् आनन्दाश्रुणि सा तदो वदद गौर्युवाच कथं निष्ठुरतां यादो वृत्तान्तं मम हर्षिचिद न गृह्णासि न वा स्वीयं प्रेषयस्यपि निर्दय हिमवानुवाच सत्यं वदसि गौरित्वं कण्ठे प्राणा मम स्थिदाः अधस्त्वद्दर्शनाकाङ्क्षी प्राप्तोऽहं हरवल्लभे वत्से धेनुमनो यद्वत् तद्वत् त्वय मनो मम क उवाच एवमाकर्ण्य तद्वाक्यं सा ददाह्वासनं उपविष्टो ब्रविद्वाक्यं पुनर्गिरिवरः सुदां श्रुतो नारदवाक्येन पुत्रस्ते परमाद्भुतः तदस्तं द्रष्टुमायादः सर्वविघ्नहरं शुभं क पार्वती बालमादाय पितुरङ्गे न्यवेशयद सोऽलङ्कारैरलङ्कृत्य महिमानं तदोब्रवीद स उवाच अयं बालो महामाह्य करिष्यति महीमिमां निष्कण्ठकां यथा चन्द्रशीतलां स्वकरैरिमाम् अयं देवगणान् सर्वान् स्वस्थाने स्थापयिष्यति करिष्यत्यङ्घ्रिसेवां ते शिशोरस्य मुनीश्वराः येदस्य सर्वरूपाणि चराणि च अयमेव सदाध्येयो ब्रह्मादीनां सहस्रदृक् सहस्राङ्घ्रिः सर्वजगत्कारणानां च कारणम् सहस्रास्योऽनन्दमूर्तिः समष्टिव्यष्टिरूपवान् त्रैलोक्येन दृश्यो बालो दृष्टा क्वापि शुभायवान् अहम् तन्मयताम् यादो दृष्ट्वा तत्पादपङ्कजम् यथाम्भसि पयः क्षिप्तं यादि तन्मयदां क्षणाद् अस्य यत्नं कुरु शुभे निधिरेष पुरातनः मस्तके मुकुटं चास्य स्वाङ्गदे भुजयोरपि पङ्कजं हृदि श्रुत्योश्च कुण्डले रत्नभूषिते कडिसूत्रकडौ चाण्डक्रियो महार्हाः क्षुद्रखण्डिकाः एवं दत्वा भूषणानि नामचक्रे शुभं गिरिः हे रम्भेरिमहाविघ्नहरं तदो भुक्त्वा गृहीत्वा ज्ञां ययौ स्वस्थानमादिराद एकस्मिन्दिवसे बालश्चिक्रीड निजमन्दिरे गृध्रासुरो गृध्ररूपी महाबलपराक्रमः पक्षवादेन यस्याद्रिचयश्चूर्णत्वमीवान् गण्डशैलाश्च वृक्षाश्च पादाकादेन तस्य च सपक्षच्छायया भ्रमत्तदा नयनानि पक्षाखाद पक्षाखादरजकणैः आच्छादयन्महाशब्दैः श्रोत्रे बधिरदामि यद् तदश्चञ्च्वातुतं बालं गृहीत्वा रुध्रपुङ्गवः व्योममार्गं गदो दूरं गरुडो भुजगं यथा बभ्रामगगने दुष्टो जानन् बालपराक्रमं तदोपश्यद्गिरिसुता बालः कुत्र कुतो गतः केननीदो मम सुतो दुष्टेन च दुरात्मना उपविष्टा ततो पश्येद् मूर्च्छिदा पदिता भूमौ धाव धावेदि चाब्रवीद मम प्राणा गमिष्यन्ति विना पुत्रं सुरेश्वर कथं ममो परि पदिदं शङ्करः कथम् नैष्ठुर्यं परमं प्राप्तो मय्येव जगदीश्वरः द्वादशाब्दं तपस्तप्तं निराहारतया मया करुणाब्धिः स्वप्रकाशोऽवतीर्णो भून्ममालयं स सगदो निधिरूपोमे मे भाग्यायाः पाप सञ्चयात् ग बाले गदं सर्वम् सुखमात्यन्तिकं मम क उवाच एवं तस्यां तु शोचन्त्यां शुचुचुस्तत्सखी जनाः ततस्ते तत्समाधानं चक्रोत् ज्ञानेन युक्तिभिः अनादिनिधने बाले न शोकं कर्तुमर्हसि स्वप्रकाशेऽवतीर्णे ते बह्वनुष्ठानयो गदः कुत्र वा मृण्मयी मूर्तिश्चेदनामगमद्वद स्थिराभवक्षणेन त्वम् द्रक्ष्यसे स्वसुदम् शुभे अन्तकस्यान्तको बालः पुनरेष्यति निष्ठया सखीजने वदत्येवम् तावद् बालस्वमुष्टिना दधार चञ्जुबलवान्यधा श्वासो न श्वास श्वासरोधाद्गदासु स गृध्रस्तेन समन्वितः निपपादमही पृष्ठे वज्राहद इवाचलः पदमानो गृद्रदेहो दशयो जनविस्तृतः चूर्णयामास गेहानि तच्चित्रमभवद्भृश्यम् चैत्यवृक्षेषु भग्नेषु ययुः पक्षिगणादिशः ततो दृष्ट्वा तु दम्बालमवदत्ससखीगणः अयमक्षददेहस्तुपदिदो गिरिजासुदः क उवाच श्रुत्वेत्थं वचनं तस्य त्वरि दा बालमाददे गौरिनिधाय हृदये परमानन्दमाप च आश्चर्यं परमं प्राप्य ददौ दानन्यनेकशः गदमस्य महारिष्टमग्रेण स्यादि द्विजा नमस्कृत्य द्विजान् प्रायान् मन्दिराभ्यन्तरं शिवा दशयोजनविस्तार क्व सुरो बलवत्तरः क्व बालकोमलतनुर्लघुरूपो जकानतं एतावदो बलमिदमग्रे किं वा करिष्यति इत्युवाच स किं गौरीस्तनपानं ददौ मुदा अयं लघुर्नमन्दव्यो यथा वह्निकणो दभेद महान्दं काष्ठनिचयं तथा सुरह हदोऽसुरः तदस्तद्देहखण्डानि गणादूरे निचिक्षिपुः शृणुयादीख्यानम सौसुराईर्नाभूय यीगणेशणे क्रीड़ाखंडे त्याशीतम ओम